आमोदो रातिकौसले बहुमति कन्दर्पसारस्वते सौजन्यौ मृदुपाषणे जघी कथं विस्मार्यदे मा स्थाने दूर्धशिखामणिः सरमदे धन्यासु अन्याजुवादाय ददये समा Ta Durang Ta